अथ त्रयस्त्रिंशः सर्गः तस्य दद्वचनम् श्रुत्वा कुशनाभस्य धीमतः शिरोभिश्चरणौ स्पृष्ट्वा कन्या शतमभाषत वायुः सर्वात्मको राजन् प्रत्यवेक्षते पितृमत्यस्म भद्रम् वयम् स्थिताः पितरम् नो वृणीष्वत्वम् यदि नोदास्यते तेन पापानुबन्धेन वचनम् न प्रतीच्छत एवम् ब्रुवन्त्यः सर्वास्म वायुनाभिहता भृशम् तासाम् त्ववचनम् श्रुत्वा राजा परमधार्मिकः प्रत्युवाच महातेजाः कन्या शतमनुत्तमम् क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत्कृतम् ऐकमत्यमुपागम्य कुलम् चावेक्षितम् मम अलङ्कारो हि नारीणाम् क्षमा तु पुरुषस्य वा दुष्करम् तच्च वैक्षान्तम् त्रिदशेषु विशेषतः यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः क्षमादानम् क्षमा सत्यम् क्षमा यज्ञाश्च पुत्रिकाः क्षमा क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् विसृज्य कन्याः काकुत्स्थराजा त्रिदश मन्त्रज्ञो मन्त्रयामासप्रदानम् सह मन्त्रिभिः देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् एतस्मिन्नेव काले तु चूली नाम महाद्युतिः ऊर्ध्वरेताः शुभाचारो ब्राह्मम् तप उपागमत् तपस्यन्तमृषिम् तत्र गन्धर्वीपर्युपासते सोमदा नाम भद्रम् ते ऊर्मिलातनया तदा सा च तम् प्रणता भूत्वा शुश्रूषणपरायणा उवासकाले धर्मिष्ठा तस्यास्तुष्टो भवद्गुरुः स च ताम् कालयोगेन प्रोवाच रघुनन्दना परितुष्टोऽस्मि भद्रम् ते किङ्करोऽमि तव प्रियम् परितुष्टम् मुनिन्यात्वा उवाच परमप्रीता वाक्यज्ञावाक्यकोमिदम् लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ब्राह्मेण तपसा पुत्रमिच्छामि धार्मिकम् अपतिश्चास्मि भद्रम् ते भार्या चास्मिन कस्यचित् ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ब्रह्मदत्त इति ख्यातम् मानसञ्चूलिनः सुतम् स राजा ब्रह्म दत्तस्तु पुरी मध्यवसत्तदा काम्पिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् स बुद्धिम् कृतवान् राजा कुशलाभः सुधार्मिकः ब्रह्मदत्ताय काकुत्स्थदातुम् कन्याशतम् तदा तमाहूय महातेजा ब्रह्म महीपतिः ददौ कन्याशतम् राजा सुप्रीतेनान्तरात्मना यथाक्रमम् तदापाणिम् जग्राहरघुनन्दना ब्रह्म दत्तो महीपालस्तासाम् देवपतिर्यथा पृष्टमात्रे तदापाणौ विकुब्जा विगतज्वराः युक्तं परमया लक्ष्म्या बभौ कन्याशतम् तदा स वायुना मुक्ताः कुशनाभो महीपतिः बभूवपरमप्रीतो हर्षं लेभे पुनः पुनः कृतो द्वाहम् तु राजानम् ब्रह्म दत्तम् महीपतिम् सदारम् प्रेषयामास सोपाध्यायगणम् तदा सोमदापि दृष्ट्वा पुत्रस्य सदृशीम् क्रिया यथा न्यायम् च प्रत्यनन्दता स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशलाभम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आलिकाव्ये बालकाण्डे त्रयस्त्रिंशत्